श्रीमदभागवत महापुराणादश स्कंध अथ पंचम भक्तिन पुषों की गति और भगवान की पूजा विधि का वर्णन राज भगवत हरिपा न भजन तेसाम तात काम का निष्ठा चमसुवाच मुखबाहोरुपादेभ्य पुरुषस्याश्रमैः सह चत्वारो जग्गिरे वर्णा गुणैर्विप्रादय पृथक् या येषां पुरुषं साक्षात् आत्मप्रभवमीश्वरं न भजन्त्यवजानन्ति स्थानाद्भ्रष्टा दूरे हरिकथा केचिद्दूरे चाचित्कीर्तनाः श्रियसूद्रादि अस्त्यैव तेऽनुकम्प्या भवान् दिशां विप्रो राजन्यवयस्यौ च हरे प्राप्ता पदान्तिकं श्रौतेन जन्मनाथापि मुह्यन्त्यां नायवादिनः कर्मण्यकोविदा स्तब्धा मूर्खा पण्डितमानिनः वदन्ति चाटुकान् मूढाययास्माद्ध्वागिरोशुकाः रजसाघोरसङ्कल्पाः कामुका अहिमन्यवः दाम्भिकामानिन पापा विहसन्त्यच्युतप्रियान् वदन्ति ते न्योन्यमुपासीतस्त्रियो गृहेषु मैथुन्यपरेषु चाशुच यजन्त यजन्तशिष्टान्नविधान् दक्षिणं वृत्यैपरं ग्रन्थे पशून् तद्विदः क्रिया विबुद्ध्या विजलेन विद्यया त्यागेन रूपेण बलेन कर्मणां जातस्मयेनान्धदी सहेश्वरान् सतो मन्यन्ते हरिप्रियान् कलाः सर्वेषु सस्वतनुभेष्वस्थितम् यथा कमात्मानमभीष्टमीश्वरं वेदोपगीतं च बुधा मनोरथानां प्रवदन्ति वार्तया लोके व्यवायामिषु सद्दसेवां नित्याशुजन्तोर्न हि तत्र चोदनां व्यवस्थितिस्ते सुविवाहयज्ञसुराग्रहैराशुनिवृत्तिरिष्टाम् धनं च धर्मैकफलं यतो वैज्ञानं सविज्ञानमनुप्रशान्तिः गृहे सुयुज्यन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम् यद्ध्राणभक्षो विहितसुरा सुरायां तथा पशुरालभनं न हिंसाम् एवं व्यबायं प्रजया न रत्या एवं विशुद्धं न विदोषधर्मम् एतनेवं विदो सन्तः श्र सदभिमानिनः वसुंह्यन् दुह्यन्ते विश्रब्धाः प्रीत्य खादन्ति ते च तान् द्विषन्तम् परकायेषु स्वात्मानम् हरिमीश्वरम् मृतके सानुबन्धेऽस्मिन् बन्धस्नेहापतन्त्यथा ये कैवल्यमसत्प्राप्ता ये चातीतास्य मूढतां त्रैवर्गिका शैक्षणिका आत्मानं घातयन्ति ते एत्मयम् आत्महनो अज्ञाने ज्ञानमानिनः सीदन्त्य कृतकृत्या वै कालध्वस्तमनोरथाः हित्वा सरचिता गृहापद्य सुयः तमोविसन्त्यनिच्छन्तो वासुदेव मुखाह राजवाच कस्मिन काले स भगवान् किं वर्णकीदृशो नृभि नाम्नावाकेन विन्विधिना पूज्यते तदिहोच्यताम् करं करभाजनुवाच कृतं त्रेताद्वापरं च कलिरित्ये सुकेशवः नानावर्णाभिधाकारो नानपि ना सेद्यते कृते शुक्लश्चतुर्बाहुर्जटिलो वल्कलाम्बरः कृष्णार्जिनोपवीताक्षाण्भ्रन्दण्डकमण्डलो मनुष्यास्तु तदा शान्ता निर्वैरा सुहृदशमाः जयन्ति तपसा च दमेन च हंस सुपर्णो वैकुण्ठो धर्मो योगेश्वरो मलः ईश्वरपुरसो व्यक्तपरमात्मेति गीयते त्रेतायां रक्तवर्णौ सौ चतुर्बाहुश्रिमेखलः हिरण्यकेशस्व्यात्मा शृक्तो वाद्योपलक्षणः तं तदा मनुजादेवं सर्वदेव हरिम् यजन्ति विद्यया त्रय्या धर्मेष्ठा ब्रह्मवादिनः विष्णुर्यज्ञप्रश्नगर्भ सर्वदेव उरुक्रमः विशाकपि जनयन्तश्च उरुगाय इति रियते द्वापरे भगवार्थ्याम पीतमासा निदायुध श्रीवस्यादिभिरङ्कैश्च लक्षणैरुपलक्षितः तं तदा पुरुषं मरचा महाराजोपलक्षणं यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो रिपा